मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं ट्वेन्टिफैव् आषाढकृष्णचतुर्थीवर्णनं श्रीगणेशाय नमः दशरथ उवाच आषाढे सङ्कटीप्रोक्ता चतुर्थी चरितं शुभं तस्यावद वद महायोगिन् सर्वदं पापनाशनम् उपशिष्ट उवाच अत्र ते कथयिष्यामि चेतिहासं पुरातनं सर्वसिद्धिकरं पूर्णं सेवितं चेन्नृपात्मजा वृत्रेण पीडितोऽत्यन्तं महेन्द्रश्चिन्तयान्वितः वने वसत्तु सन्त्रस्तकं पुरा मुनयश्रुतिभिर्हीना भ्रष्टाचारासमधिष्ठंस्ते भयोद्विघ्ना वर्णाः सर्वे तथा नृपकर्मखण्डनभावेन देवाः परमविह्वलाः उपोषणपरा भूत्वा तिष्ठंस्ते मरणोन्मुखाः गिरेर गुहासु संस्थास्थे ददृशुर्मुनिपुङ्गवं विशेषज्ञं कृसमदं योगिनां गुरुमागतं तं दृष्ट्वा दण्डवत् सर्वे प्रणेमुश्चेन्द्रमुख्यकाः पप्रच्छुपूजयित्वा तं स्वासने संस्थितिं मुनिम् इन्द्र दृष्टिर्धन्याजन्मधन्यं पितामादाव्रताधिकं यज्ञो ज्ञानाधिकमेवै त्वदङ्घ्रेर्दर्शनात् प्रभो तव दर्शनमात्रेण कल्याणं नो भविष्यति साक्षाद्योगीश्वरस्यैव सर्वसिद्धिप्रदस्य च अत्रा सुरेण दुष्टेन निर्जिता वयमेव च राज्यं त्यक्त्वा वने विप्रतिष्ठामः पशवो यथा अत्रादिकर्मनाशेनो पोषणेन समन्वितः मरिष्यामो न सन्देहस्तत्र किं दर्शनं भवेद् तथापि पुण्ययोगेन प्राप्तं ते दर्शनं परं वदब्रह्मन् दयां कृत्वा वृत्रनाशकरमहद जगत्सर्वं महायोगिन् भ्रष्टाचारं कृतं सदा किं पश्यसि सुसंहारे प्राप्ते योगीन्द्रसत्तमम् वसिष्ठ उवाच एवं पृष्टो गृत्समदस्तमुवाच दयान्वितः विश्वरक्षणभावार्थं दुष्टनाशकरं वचः कृत्समद उवाच राज्यं प्राप्य महाभाग सुरत्यक्ता चतुर्थिका व्रतभ्रष्टोऽसि देवेन्द्र अधुना तद्व्रतं गुरु ज्ञानमदने विघ्नेशमन्त्रस्त्यक्तस्तथा त्वया किं चित्रं राज्यहीनत्वे दुर्मदे मदलालस एवमुक्त्वा च दुर्ध्यायन्माहात्म्यं मुनिसत्तमः कथयामास तस्मै तत् पुनर्मन्त्रं ददौ स्वयं यदृच्छया गदे राजन्मुना विन्द्रेण तत्तजः व्रतं कृतं द्विजैर्देवैर्गणेशं सम्प्रपूज्य च तत्रादौ देवराजेना षाढीकृष्णा महातिथिः प्राप्ता चतुर्धिका भूप साकृता कृता गणेशं मनसा ध्यात्वा दधी चेरस्तिजम्महद वज्रं दत्त्वा ययौ देवैर्वृत्रं युद्ध चतुर्थी व्रतजेनासौ प्रभावेण महासुरं कृत्वा युद्धं महाघोरं वज्रेणैव जखानतं हत्वा वृत्रं महावीर्यं देवैः सह शतक्रदुः स्वस्थो भूदमरावत्या मुमुदे तदो ततो सर्वे सर्वेष्वस्वस्थानेषु नित्यशः शुक्लकृष्णभवं चक्रुश्चतुर्थी संव्रतं पृथिव्यां सर्वलोकास्तद्व्रतं चक्रुविशेषतः इन्द्रेण बोधिदम्भक्रिया सर्वसिद्धिकरं महद मन्वन्तरे गदे देवैरिन्द्रस्वानन्दगो भवद दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूवः भूमिसंस्थानर सर्वे क्रमेण प्रययोर्नृप गणेशं ब्रह्मभूतास्ते व्रतपुण्यप्रभावतः यदत्ते कथितं स्वल्पमाहात्म्यं व्रतसम्भवं पुनरन्यशृणुष्वत्वं पापकञ्चुकनाशनं गुर्जरे ब्राह्मण कश्चिद् बाल्यात् पापपरायणः परयो निषु जीवकादं चकारः ये कदा भगिनी यब्धा दुष्टेन चाभवद मध्यमांस परेणापि चरता वनगह्वरे द्रव्यलोभी जकानासो द्विजादींश्च विशेषतः पशुपक्षिगणान् राजन भ्रष्टाचार सुदुर्मदिः नित्यं चकार सखलो यवह्ै सह भोजनम् न तन्मयातस्य तन्मया तस्य पापं वर्णयितुं परं एकदा वनमध्यस्तो बभूवे जादिदूषकः आषाढे कृष्णपक्षे स च पापकारकः दैवयोगेन तेनैव न प्राप्तं वनगह्वरे किञित्तेनादिदुःखार्थस्तदा बभ्रामपर्वदे तथापि न लभत् किञ्चित्तदोद्दुःखपरायणः अपराह्णे पुनसोऽपि स्वगृहं पुनसोपि न ददर्श स तत्रापि जलान्नं दैवयोगतः आजगामक्षुधार्थः स्वगृहे शोकसंयुतः यवनजां समालिङ्ग्य निशि चन्द्रोदये नृप बभक्षान्नं सुतैः सार्धं मोहितो मायया भृशं ततो ज्वरयुधोकस्माद्बभूवे पापनिश्चयः राजन् यवनजादेन न स्पृष्टा पापकारिणी पञ्चम्यां मृतस्तत्र भृशं दुःखेन पीडितः गाणे शास्त्रं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे एतादृशा महापाप उद्धरन्ति दिव्रदेन वै अज्ञानकृतपुण्येन तत्र किं वर्णयाम्यहं विधियुक्तं व्रतं भूप ये कुर्वन्ति नरोत्तमाः दर्शनेन जनानां ते तारकाः सम्भवन्ति हि एवं व्रतप्रभावेण ब्रह्मभूता बभूविरे अनन्ताश्चरितं तेषां वक्तुं नैव प्रशक्यते इदमाषाढसङ्घष्ट्याश्चरितं यशृणोति चेत् पठेद्वा लभदे सोऽपि वाञ्छिदं नात्रसंशयः संशयः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आषाढकृष्णचतुर्थी वर्णनं नाम पञ्चविंशोऽध्यायः ओम्